तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम् दिव्यदुन्दुभि निर्नादं वादित्रशतसङ्कुलं स श्रुत्वा मधुरं शब्दम् प्रीतिमान भवत्तदा ततो विगाह्य हैडिम्बो बहुकक्षां मनोरमाम् सददर्शमहात्मानं द्वास्थेन भरदर्षभा दिव्ये भास्करसङ्काशे मुक्तामणिविभूषिते दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुं दिव्यमाल्याम्बरधरं दिव्यगन्धोऽक्षितं शुभं विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् उपोपविष्टं सचिवैर्देवैरिवशतक्रतं यक्षैर्महारथैर्दिव्यैर्नारीभिः प्रियदर्शनैः गीर्भिर्मङ्गलयुक्ताभिः पूज्यमानं यथाविधि चामरे व्यजने चाग्रे हे मदण्डे महाधने गृहीते मरनारिभ्यां धूयमाने च मूर्धनि अर्चिष्मन्तं श्रियाजुष्टं कुबेरवरुणोपमं धर्मे चैवसितं नित्यमद्भुतं राक्षसेश्वरम् राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा दृष्ट्वा घटोत्कचो राजन्व वन्दे तं कृताञ्जलिः ब्रह्स्तस्थो महावीर्यः शक्रम् चित्ररथो यथा तम् दूतमागतम् दृष्ट्वा राक्षसेन्द्रो विभीषणः पूजयित्वा यथा न्यायम् सान्त्वपूर्वं वचो ब्रवीत् विभीषणवाच कस्य वंशे तु सञ्जातः तस्यानुजां समस्तांश्च पुरं देशं च तस्य वै त्वां च च तत्सर्वं श्रोतुमिच्छामि तत्त्वतः विस्तरेण मम ब्रूहि सर्वानेतान् पृथक् पृथक् वैशम्पायन वाचा एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना कृताञ्जलिरुवाताथ सान्त्वयन्